नारदपुराणम् पूर्वार्थम् अध्यायम् हण्ड्रेड् श्रीब्रह्मोवाच अथ ते सम्प्रवक्ष्यामि पुराणं सर्वसिद्धितं भविष्यं भवद सर्वलोकाभीष्टप्रदायकम् यत्राहं सर्वदेवानामादिकर्ता समुद्गतः सृष्ट्यार्थं तत्र सञ्जातो मनुस्वार्थ भुवः समां प्रणम्यपप्र च धर्मं सर्वार्थसाधकम् अहं तस्मै तदा प्रीत प्रो प्रावोचं धर्मसंहितां पुराणानां यदा व्यासो व्यासं चक्रे महामतिः संहितां सर्वां पञ्चधा व्यभजन्मुनिः अधोरकल्पवृत्तान्तं नानाश्चर्यकदान्मिदं तत्रादिमम् स्मृतम् पर्वम् ब्राह्मम् यत्रास्त्युपक्रमः सोदशौनकसंवादे पुराणप्रश्नः सङ्क्रमः आदित्य चरितप्रायः सर्वख्यानसमन्वितः सृष्ट्यादिलक्षणोपेदशास्त्रसर्वस्वरूपकः पुस्तलेखकलेखानाम् लक्षणम् च ततः परम् संस्काराणां च सर्वेषां लक्षणम् च अत्र कीर्तितम् च कल्पा सप्त च कीर्तिताः वैष्णवे पर्वणि स्मृताः शैवे च पायदो भिन्ना सौरे चान्द्यकथान्वयः प्रति सर्गाह्वयम् पश्चान्नाख्यानसमन्वितम् पुराणस्योप संहारसहितं पर्व येषु पञ्चस्सु पूर्वस्मिन् ब्रह्मणो महिमाधिकः धर्म्यकामेजमो क्षेदो विष्णोश्चापि शिवस्य च द्वितीयं च तृतीये च सौर्ये सर्गाक्वयं त्वं त्वं प्रोक्तं सर्वतथान्विधम् स भविष्यं विनिर्दिष्टं पर्वभ्यासेन मदा चतुर्दशसहस्रं तु पुराणं परिकीर्तिदं भविष्यं सर्वदेवानां साम्यं यत्र प्रकीर्तिदं गुणानां तारतम्येन समं ब्रमेदिः श्रुतिः तं लिखित्वा तु यो पौष्यान् विद्वान् विमत्सरः गूडधेनुयुधं हेमवस्त्रमाल्यविभूषणैः वाचकं पुस्तकं चापि पूजयित्वा विधानदका गन्धाद्यर्भोद्यभक्ष्यश्च कृत्वा निराजनाधिकं यो वैदितेन्द्रियो भूत्वा सोपवासः समीहितः अथ वैकः विश्यासि कीर्तये तृणुयादपि समुक्तपादकैर्घोरैः प्रयादि ब्रह्मणः पदम् योऽप्यनुक्रमणीमेदां भविष्यस्य निरूपितां पठिद्वा शृणु याचयितां भुक्तिं मुक्तिं च विन्दति इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे भविष्यपुराणानुक्रमणीनिरूपणं नाम शततमोऽध्यायः ओम्